नारदपुराणम् पूर्वार्धम् अध्यायम् सेवेण्टि सेवेन् नारद उवाच साधु साधु महाप्राज्ञ सर्वतन्त्रविशारद त्वया मह्यम् समाख्यातम् विधानं तन्त्रगोपितम् अधुनाधुमहाभागकीर्तवीर्यहनूमतोः कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे सनकुमार उवाच शृणुविप्रेन्द्रवक्ष्यामि कवचं परमाद्भुतं कार्तवीर्यस्य येनास्सौ प्रसन्नकार्यसिद्धिकृत सहस्रादित्यसङ्काश्ये नानारत्नसमुज्ज्वले भास्वध्वजपदाकाढ्ये तुरगायुधभूषिते महासंवर्तकाम्बोधि भीमरावविराविणि समुद्धृत महाचप्रतानितवियत्पथे महारथवरे दीप्तनानायुधविराजिते सुस्थितम् विपुलोदारं सहस्रभुजमण्डितम् वामैरुद्दण्डकोद्दण्डान् धाम दधानम परैशरान् किरीडहारमुकुडकेयूरवलयाङ्गदैः मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः आबद्धकवचं वीरं भुजां धनुज्या सिंहनादेन कम्बयन्तं जगत्त्रयं सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनं सर्वसम्पत्प्रदातरम् विजयश्रीनिषेविदं सर्वसौभाग्यदम्भद्रं भक्ताभयविधायिनं दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतं रथनागाश्वपादाृन्दमध्यगमीश्वरं वरदं चक्रवर्तीनं सर्वलोकैकपालकम् समानोदितसाहस्रदिवाकर समद्युतिं महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयं श्रीमच्चक्रं हरे रंशादवतीर्णं महीतले सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् अस्याङ्गमूर्तयः पञ्च पां दु मां स्फटिगोज्ज्वलाः अग्निशासुरवायव्यकोणेषु हृदयाधिकाः सर्वदोस्रज्ज्वलद्रूपादरचर्मासिपाणयः क्षेमं करी शक्तियुधश्चौरवर्गविभञ्जनः प्राचीं दिश्यं रक्षतु मे बाणबाणासनायुधः श्रीकरीशक्तिसहितो मारीभयविनाशकः शरचापधरश्रीमान् दिशं मे पादु दक्षिणाम् महावश्यकरीयुक्तसर्वशत्रुविनाशकृत महेषु चापधृक्पादु मम प्राचेतसीं दिशं यस्य कर्या समायुक्तो दैत्यसङ्घविनाशनः परिरक्षतु मे सम्यग् विदिशं चैत्र धानवीम् विद्याकरीसमायुक्तः सुमु सुमहुः कुमह दुःखनाशनः पादुमे नैहृदिं चापपाणिर्विदिशमीश्वरः धनकर्यासमायुक्तो महादुरिदनाशनः इश्वासनेषु धृक्पादुविधिशं मम वायवीम् आयुक् कल्यायुतश्रीमान्महाभयविनाशग्नः चाप्येषुधाजीशैवी मे विदिशं परिरक्षतु विजयश्रीयुतः साक्षात् सहस्रारथरो विभुः दिशमूर्ध्वामवधो मे सर्वदुष्टभयङ्करः शङ्कभृत्सुमहाशकृयुधोऽप्यधरां दिशम् परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः महायोगसमयुक्तसर्वदिक्चक्रमण्डलः महायोगीश्वरपादु सर्वतो मम पद्मभृदयेतास्तु मूर्तयोरक्तरक्तमाल्यां शुकावृताः प्रधानदेवतारूपा पृथग्रथवरे प्रधा स्थिताः शक्तयः पद्महस्ताश्च तदनीलेन्दीवरसन्निभाः शुक्लमाल्यानुवसना सुलिप्ततिलकोज्ज्वलाः तत्पार्श्वदेश्वराः स्वस्व वाहनायुधभूषणाः स्वस्वदिक्षुस्थिताः पान्तु मामिन्द्राद्या महाबलाः येतस्तस्य समाख्यादा सर्वावरणदेवताः सर्वदो माम सदा पादुं सर्वशक्तिसमन्विताः हृदये चोदरेणाभौ जटरे गुह्यमण्डले तेजोरूपास्तिदाः पातुं वाञ्चा सुखनद्रुमाः दिशं चान्ये महावर्णामन्त्ररूपा महोज्वलाः व्यापकत्वेन पान्त्वस्मानापादतलमस्तकं कार्तवीर्यशिरः पादुललाडं हैहयेश्वरः सुमुखो मे मुखं पादु कर्णव्याक्तजगत्त्रयः सुकुमारो कनुं पादु भ्रूयुगं मे धनुर्धरः नयनं पुंमण्डरी काक्षगो नासिका मे गुणाकरः अधरोष्टौ सदा पादु ब्रह्नेयो द्विजान्कविः सर्वशास्त्रकलाधारी जिह्वाम् शिबुगमव्ययाः दत्तात्रेयस्पृहत् खण्डं स्कन्धौ राजकुलेश्वरः भुजौ दशास्य दर्पघ्नो हृदयं मे महाबलः कुक्षिं रक्षतु मे विद्वान् वक्षपरपुरञ्जयः करौ सर्वार्धदपादु कराग्राणि जगत्प्रियः रे वाम्बुलीला संहक्तो जठरं परिरक्षतु वीरस्यूरस्तु मे नाभिं पार्श्व मे सर्वदुष्टः सहस्रभुजनृत्पृष्ठं सप्तद्वीपाधिफक्पटिं कूरू जानुनी वल्लभो भुवः जङ्घे वीराधिपपादु पादु पादौ मनोजवः पादु सर्वा युधरः सर्वाङ्गं सर्वमर्मसु सर्वदुष्टान्तः कःपादु धात्वष्टकलेवरं प्राणादिदश जीवेशान् सर्वशिष्टेष्टदो वधु वशीकृतेन्द्रियग्रामपादु सर्वेन्द्रियाणि मे अनुक्तमपि यत्तान शरीरान्तर्बहिश्च यद तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः वज्रात्सारतरं चेदं शरीरं कवचावृतं बाधाशदविनिर्मुक्तमस्तु मे भयवर्जितम् बद्धेदं कवचं दिव्यमभ्येद् दिव्यमभेद्यं हैहये शिदुः विचरामि दिवरात्रौ निर्भये नान्दरात्मनां राजमार्गे महादुर्गे मार्गे चौरादिसङ्कुले विषमे विपिने कोरे धावाग्नौ गिरिकन्धरे सङ्ग्रामे शस्त्रसङ्घादे सिंह व्याघ्रनिषेविते गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये विवादे विपुलावर्ते समुद्रे च नदीतटे परिपन्थिजनाकीर्णे देशे दस्युगुणावृते सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे प्रेदयातने, नानारोगज्वरावेशे पिशाचप्रेतयातने मारीदुःस्वप्नपीडासुक्लिष्टे विश्वासखादके शरीरे च चा महादुःखे मानसे च महाज्वरे आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च न भवदुभयं किञ्चित् कवचेनावृतस्य मे आङ्गुतु कामानखिलान् अस्मद्वस्सुविलुम्पकान् निवारयतु दोर्दण्डसहस्रेण महारथः स्वकरोद्धृतसाहस्रपाशबद्धान् सुदुर्जयान् समृद्धोगदिसामर्थ्यान् करोतु कृतवीर्यजः तृणिसाहस्रनिर्भिन्नान् सहस्रशरखण्डितान् राजचूडामणिः क्षिप्रं करो त्वस्मद्विरोधकान् गङ्गहस्रदलितान् सहस्रमुशलार्दिदान् चौरादिदुष्ट सत्त्वौखान् करोतु कमलेक्षणः स्वशङ्खनादसन्त्रस्तान् सहस्रार सहस्रहृदवतारोहरे साक्षात् पालय त्वखिलं मम कार्तवीर्यमहावीर्य सर्वनाशन सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय किं त्वं स्वपिषि दुष्टग्न किं तिष्ठसि चिरायासि उत्तिष्ठपाहिनः सर्वभयेभ्यः ये चौरा वसुहर्तारो विद्विषो ये जहिंसकाः साधुभीधिकरा दुष्टाश्चत्मका ये दुराशयाः दुर्हृदो दुष्टा भूपाला ये च कार्यविलोप्तोरो ये खला परिपन्थिनः सर्वस्वकारिणां ये च पञ्चमायाविनोपरेः महाक्लेशकरा म्लेच्छा दस्य वो वृषलाश्च ये योऽग्नीदा गरदातारो वञ्चकाशास्त्रपाणयः ये पापा दुष्टकर्मणो दुःखदा दुष्टबुद्धयः व्याचकुपधासक्ता ये जनानाभयप्रदाः छिद्रान्वेषरदानित्यं यस्मान्बाधिदुमुद्यदाः ते सर्वे कार्तवीर्यस्य महाशङ्खरवागदाः सहसा विलयं यान्दुदूरदिव विमोहिताः दा ये दानवा महादित्या ये च राक्षसाः पिशाचाये महासत्वाये ये भूतब्रह्म राक्षसाख अपस्मारग्रहाय च ये ग्रहापिशिदाशनाः महालोकितभोक्तारो वेताला ये च गुह्यकाः गन्धर्वाप्सरससिद्धा ये च देवादियोनयः डकिन्यो दृणसाप्रेताः क्षेत्रपालाविनायकाः महाव्याक्रमहामेका महातुरागरूपकाः महागजामहासिंहा महामहिषयोनयः ऋक्षवाराह शुनक वानरोलूकमूर्तयः महोष्ट्रकरमार्जारसर्पगोवृषमस्तकाः नानारूपा महासत्त्वा नानाक्लेशसहस्रताः नानारोगकराः क्षुद्रा महावीर्या महाबलाः वातिकाः पैत्तिकाघोरा श्लैक्ष्मिका सान्निपादिकाः माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः स्कन्द वैनायकाक्रूरा ये च प्रमदगुह्यकाः महाशत्रुः रौद्रा महामारीमसूरिकाः ऐकाहि का काश्च महाज्वराः चादुकाः पाक्षिकाश्च मस्याषाण्मासिकाश्च ये सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः स्वाप्निका ये महोत्पादा ये च दुःस्वाप्निकाग्रहाः कूष्माण्डा दृम्भिका भौमा द्रोणा सान्निध्यवञ्चकाः भ्रमिकाप्राणहर्तारो ये च बालग्रहादयः मनो बुध्वीन्द्रिया हरस्फोटकाश्च महाग्रहाः महाशनाबलिभुजो महाकुणः भोजनाः दिवाचर रात्रिचरा ये जन्ध्यासु प्रमत्ता वाप्रमत्ता वै ये मां बाधितुमुद्यताः ते सर्वे कार्तवीर्यस्य धनुर्मुक्तशरागताः सहस्रद्धा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः ये सर्पाये महानागा सर्पा ये महानागमहागिरिबिदेशयाः कालव्यालामहादंष्ट्रा महाजगरसंज्ञकाः अनन्दशूलिकाद्याश्च दंश्राविषमहा दंश्राविषमहाभयाः अनेकशदशीर्षाश्च खण्ड पुस्त पुच्छाश्च दारुणाः महाविषजलौकश्च वृच्छिका रुक्रपुच्छकाः आशीविषकालगूडमहाकालाहलाह्वयाः जलसर्पजलव्यालजलग्राहाश्च कश्चपाः मत्स्यकाविषपुच्छाश्च चा ये चान्ये जलवासिनः जलजास्तलजाश्चैव कृत्रिमाश्च महाविषाः गुप्तरूपागुप्तविश्वामुषिकागृहोधिकाः नानाविषाश्च ये कोरा महोपविषसंज्ञकाः योऽस्मान् बाधितुमिच्छन्ति शरीरप्राणनाशकाः ते सर्वे कार्तवीर्यस्य कङ्गसाहस्रधारिताः दूरादेव विनश्यन्तु प्रनष्टेन्द्रियसाहसाखमनुष्या पशवो तृक्षवानरा वनगोचराः सिंहव्याक्रवराः स्तमहिषा ये महामृगाः गजास्तुरङ्गा गवया रासभा शरभावृकाः शुनकाद्वीपिनशुभ्रा मार्जारा बिडललोलुपाः सृगालाः शशाकाशेन गुरुत्मन्दो विहङ्गमाः भेरुण्डा वायसा गुध्रा हंसाध्याः पक्षिजादयः उद्भेजाश्चाण्डजाश्चैव स्वेदजाश्च नानाभेदकुले जाता नानाभेदाः पृथग्विधाः ये स्मान् बाधितुमिच्छन्ति सेध्यासु च दिवानिशि ते सर्वे कार्तवीर्यस्य गदा साखस्रदा जिताः दूरा देव विनश्यन्तु विनष्टगति पौरुषाः ये चाक्षेमप्रदातारक् कूडमायाविनश्च ये मारणोत्सादनोन्मूलद्वेषमोहनकारकाः विश्वासकातका दुष्टा दुष्टाये जस्वामिद्रुहो नराः ये चाततायिनोद्दुष्टा ये पापगोप्यहारिणः दाहो पद्यादगरलशास्त्रपादादिदुःखदाः क्षेत्रवित्ताधिहरणबन्धनादिभयप्रदाः ईतयो विविधाकारो ये चान्ये दुष्टजादयः पीडाकरा सददं छिद्रमिच्छन्ति बाधितुं ते सर्वे कार्तवीर्यस्य चक्रसाहस्रधारिताः दुरा देवक्षयं यान्दुविनष्टबलसाहसाः येमेका ये, ये महावर्षा ये वादा याश्च विद्युदः ये महाशनयो दीप्ता ये दीर्घाताश्च दारुणाः उल्कापाताश्च ये खोरा ये महेन्द्रायुधादयः सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः राहुश्च केदवो घोरा नक्षत्रा राशयस्तथा तिथ यत्सङ्ग्राममासा हायनायुगनायकाः मन्वन्तराधिपासिद्धा ऋषयो योगसिद्धयः निधयो ऋग्यजुसामाधर्वाणश्चैव वह्नयः हृतवो लोकबालाश्च पितरो देवसम्पतिः विद्याश्चैव चतुष्षष्टिभेदाय भुवनत्रये ये त्वत्र कीर्तिदा सर्वे च ये चान्ये नानो कीर्तिदाः ते सन्धु नः सदा सौम्य सर्वकालसुखावहाः आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामि दद्युदेहे कार्तवीर्यार्जुनो धन्वीराजेन्द्रो हैहयेश्वरः है दशास्य दर्पः हे वा धृतकस्सुदुर्जयः दुःखः चौरधमनोराजराजेश्वरप्रभुः सर्वज्ञ सर्वदा श्रीमन् सर्वशेष्ठेष्टधकृधि राजचूडामणिर्योगी सप्तद्वीपाधिनायकः विजयी विश्वजिद्वाग्मी महागतिरलो लुपः यज्वा विप्रियो विद्वान् ब्रह्मज्ञेयस्सनातनः माहिष्मदिपधिर्योद्धा महाकीर्तिर्महाभुजः सुकुमारो महावीरो महाजीघ्नो मधिरेक्षणः शूरक्नशाश्वतशूरखभृद्योगिवल्लभः महाभागवतो धीमान्महाभयविनाशनः असाध्वीविग्रहो दिव्यो भावो व्याप्तजगत्त्रयः जितेन्द्रियो जिताराधिस्वछन्दो नन्दविक्रमः चक्रभृत्परचक्रघ्नसङ्ग्रामविधिपूजितः सर्वशास्त्रकलाधरी विरजालोकवन्दितः वीरोविमलसत्त्वाड्यो महाबलपराक्रमः विजयश्रीमहामान्यो वी जिदारिर्मन्द्रनायकः गङ्गभृत्कामधक् कान्धक् कालघ्नकमलेक्षणः भद्रवादप्रियो वैद्यो विबुधो वरदो वशी महाधनो निधिपधिर्महायोगी गुरुप्रियः योगाढ्यसर्वरोग्नो राजिदाखिलभूतलः यात्मा सर्वगोप्ता महोज्वलः सर्वायुधरोभीष्टप्रथ परपुरञ्जयः योगसिद्धो महाकायो महावृन्दशताधिपः सर्वज्ञाननिधि सर्वस्वेद्विदानकृतोद्यमः महा, इत्यष्टशतनामोत्यामूर्तयो दिशदिग्पथि सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा स्वस्था सर्वेन्द्रिया सं तुम् चान्दिरस्तु सदा मम शशाद्या मूर्तयोष्टौ च विक्रमेणैव भास्वराः अग्निहृदि वायीश्च कोणगाः पांदुमां सदा मम सौख्यमसंवादमारोग्यमपराजयः मा मा दुःखहानिरविघ्नश्च प्रजावृद्धिसुखोदयः वाञ्छाप्तिरधिकल्याणमावैषम्यमनामयम् अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नदिः भयहानिर्यशकान्तिर्विद्यारुद्धिर्महाश्रियः अनष्टद्रव्यदा चैव नष्टस्य पुनरागमः तीर्घायुष्यं मनोहर्षसौकुमार्यमभीप्सितम् अप्रदृश्यतमस्त्वं च महासामर्थ्यमेव च सन्तु मे कार्तवीर्यस्य है हयेन्द्रस्य कीर्तनाद य इदं कार्तवीर्यस्य कपचपुण्यवर्धनं सर्वपापप्रशमनं सर्वोपद्रवनाशनं सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् विजयार्थप्रदं नृणां सर्वसम्वत्प्रदं शुभं शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयाद् चौरैर्हृदं यदा पश्येत् पश्वादिधनमात्मनः सप्तवारं तदा जप्य निशि पश्चिमदिङ्मुखः सप्तरात्रेण लभदे नष्टद्रव्यं न संशयः सप्तविंशतिधा प्राजीदिग्वदनः पुमान् देवासुरनिभं चापि परचक्रं निवारयेद् विवादे कलफेखोरे पञ्चधा यः पठेदिदं विजयो जायते तस्य न कदाचित्पराजयः सर्वलोकप्रपीडासुत्रेधा वा पञ्चधा पठेद सरोगमृत्युवेदालभूतप्रेधैर्न बाध्यते दशाधारात्रौ प्रजपेद्बन्धमुक्तयेत् त्रिदिनान्निगदादुध्वो मुच्यते नात्र संशयः अनेनैव विधानेन सर्वसाधनकर्मणि असाध्यमपि सप्ताहात् साधयेन्मन्त्रवित्तमः यात्राकाले पाठित्वेदं मार्गे गच्छदि यः पुमान् न दुष्टचौरव्याघ्राद्यैर्भयं स्यात् परिपङ्क्तिभिः जपन्नासजनं कुर्वन् जलेनाञ्जलिनातनौ न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते कार्तवीर्यकलद्वेषीकृतवीर्यसुधो बलिसहस्रबाहुशत्रुघ्नो रक्तवासाधनुर्धरः रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः द्वादशैदानि नामानि कार्तवीर्यस्य यः पठेद सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा यस्य वदे सदा विप्रश्रीमच्चक्रावतारकं तस्य रक्षां सदा कुर्याचक्रं विष्णोर्महात्मनः मयैतत्कवचं विप्रदत्तात्रेयान्मुनीश्वराद श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्ठदं यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्त सप्ततितमोऽध्यायः ओम्